गणेशाय नीमद्विजाननोवाच पुरासर्गादिसमये त्रैगुण्यन्त्रितरहं निर्मामय चिनमवदं विष्णवे युगमुत्तमम् अर्यम्ने स्वीत्सोऽपि मनवे निजसूनवे ततः परम्परा यातं विदुरेण महर्षयः कालेन बहुना अश्रद्धेयो ह्यविश्वास्यो विगीतव्यश्च भूमिप ेन पुराभवं योगं श्रुतवान्मुखात् गुह्याद्गुतौ वाच साम्प्रतं चावतीर्णोऽसि गर्वतस्त्वं गजानन प्रोक्तवान् कथयेन्मन्त्वं विष्णवे योगमुत्तमं श्रीमद्गजाननोवाच अनेकानि च ते जन्मान्यतीतानि ममापि च संस्मरे तानि सर्वाणि न स्मृतिस्तव मत्त एव महाबाहो जाता विष्णुमादयस्वराः मय्येव च लयं प्रलयेषु युगे युगे अहमेव परो ब्रह्मा महाऋतोऽहमेव च अहमेव जगत्सर्वं स्थावरं जङ्गमञ्च यत् अजोयोऽहं भूतात्मानादिरीश्वर एव च आस्थाय त्रिगुणां नाजं भवामि भो योनिषु पचयो धर्मं पचयो हीन्यतः भवेत् साधून् संरक्षितुं दुष्टान् स्वदातुं सम्भवाम्यहम् उच्छिद्या धर्मणि च यन्धर्मसंस्थापयाम्यहम् अन्नि दुष्टान् च दैत्यांश्च नानालीलाकरो मुदा वर्णाश्रमान् पालये बहुरूपधृक एवं यो वेत्ति मम दिव्यां युगे युगे तत्तत्कर्म च वीर्यञ्च मम रूपं समासतः चक्वाहं ममता बुद्धिन्न पुनर्भूसजायते निरीहा निर्भयारोषा मत्परा मद्गपाश्रयाः विज्ञानतपसा शुद्धा अनेके मामुपागताः येन येन हि भावेन संसेवन्ते नरोत्तमाः तथा तथा फलन्तेव्यः प्रयच्छाम्यव्ययस्फुटं जनाशुरितरे तथैव व्यवहारन्ते स्वेषु चान्येषु कुर्वते कुर्वन्ति देवता प्रीतिं वाञ्छन्तः कर्मणां फलं प्राप्नुवन्ति हते लोके शीघ्रं सिद्धिं हि कर्मजां चत्वारो हि मया वर्णरजसत्वतमौषतः कर्मां ततश्च संसृष्टा मृत्युलोके मया नृपौ कर्तारमपि मां तेषामकर्तारं विदुर्बुधाः अनादिमीश्वरं नित्यं मलिप्तं कर्मजैर्गुणैः निरीहं योभिजानाति कर्म बध्नाति नैव चक्रुः कर्माणि बुद्ध्वैभवं पूर्वं पूर्वं वासना मुमुक्षवः वासनासहितादाद्यात्संसारकरणादृढाद् अज्ञानबन्धना जन्तुर्बुद्ध्यायामुच्यतेखिलाद् तदकर्म च कर्माणि कथयाम्यधुना तव यत्र मौनङ्गता मोहादृशयो बुद्धिशालिनः त्वं मुक्षणान् ज्ञेयं कर्मा कर्म विकर्मणां त्रिविधानि ह्य कर्माणिम्नैषां गतिप्रियस्य हि मध्येऽस्मिन् लोके मुक्तो किलार्थमाङ्कुरवियोगेन लो यः कर्माण्यारभेन्नरः तत्त्वदर्शननिर्दग्धक्रियमाहुर्बुधा बुधम् फलतृष्णां विहाय स्यात् सदा तृप्तोऽपि साधनः उद्युक्तोऽपि क्रियां कर्तुं किञ्चिन्नैव करोति सः निरीहो निगृहीतात्मा परित्यक्तपरिग्रहः केवलं वैग्रहं कर्माञ्चरन्नायतिपातकम् अद्वन्द्वो मत्सरो भूत्वा सिद्धो सिद्धौ समश्रयः यथाप्राप्तिः सन्तुष्टः कुर्वन् कर्म न अखिलैर्विषयैर्मुक्तो ज्ञानविज्ञानमानवी यज्ञार्थं तस्य सकलं कृतं कर्म विलीयते अहमग्निर्हविर्होताहुतं यन्मै चार्वितं ब्रह्माप्तव्यं ब्रह्मा च ते नाथ ब्रह्मण्ये वयतो रतः योगिनः केचिदपरे दिष्टं यज्ञं वदन्ति च ब्रह्माग्निरे वैयज्ञो वै इति अग्निष्वन्ये तद्विषयान् शब्दादीन्वति प्राणां च परे कर्माणि कृत्स्नशः निजात्मरतिरूपेग्नौ ज्ञानदीप्ते प्रयुग्वति द्रव्येण तपसा वापि स्वाध्याये नापिकेचन केचन तीव्रावृतेन यति नो ज्ञाने नापि यजन्ति प्राणे पानं तथा प्राणमपाने प्रसिवन्दिये रुध्वागति प्राणायामृता प्रान एवन्ना यंसितपातकाः नित्यं ब्रह्मप्रयान्त्येते यज्ञशेषां वृतासिनः अयज्ञकारिणो लोको नायमन्यः कृतो भवेत् कायिकादिथिधा भूतान् यज्ञान् वेदे प्रतिष्ठितान् ज्ञात्वा तानखिलान् भूपो मोक्षसेऽखिलबन्धनाद् सर्वेषां भूपयज्ञानान् ज्ञानयज्ञः परो मतः अखिलं लीयते कर्म ज्ञाने मोक्षस्य साधने तज्ज्ञेयं पुरुषव्याघ्रप्रश्नेन नचितः सदां शुश्रूषयाददिश्यन्ति सन्तस्तत्त्वविशारदाः नानासङ्गान् जनः कुर्वन्नैकं साधु समागमम् करोति ते संसारबन्धनं समुपैति सः सत्सङ्गाद्गुणसम्भूतिरापदां भज एव च स्वहितं प्राप्यते सर्वं बृहलोके परत्र च सत्सङ्गो अतीव दुर्लभः यज्ञात्वान् पुनर्बन्धमेति ज्ञयन् गतो यतः ततः सर्वाणि भूतानि स्वात्मन्ये वावपश्यति अतिपाप्रतो जन्तुस्ततस्तस्मात् समुच्यते विविधान्यपि कर्माणि ज्ञानाग्निरदहतीक्षणाद् प्रसिद्धोऽग्निर्यथा सर्वं भस्मतान्नयतीक्षणाद् न ज्ञानसमतामेति पवित्रमितरं नृप आत्मन्यैवाजगच्छन्ति योगात्कालेन योगिनः भक्तिमानिन्द्रियजयी तत्परो ज्ञानप्राप्नुयाद् लब्ध्वा तत्परमं मोक्षं स्वल्पकालेन यात्यसौ भक्तिहीनोऽ सानः सर्वत्र संशयितु तस्य शास्त्राणापि विज्ञातमिह लोकेन चापरे आत्मज्ञानसञ्ज्ञाननाशिताखिल संशयं योगास्ताखिलकर्माणि बध्नन्ति भूपदानि न ज्ञानखड्गप्रहारेण सम्भूता मज्ञतां बलात् चित्तवान्तः संशयन्तस्माद्योगयुक्तो भवेन्नरः ॐ तथदिति श्रीमद्गणेशगीतासु उपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीमद्गजानन्दवैरेण्यसंवादे ब्रह्मार्पणयोगो नाम तृतीयोऽध्यायः मङ्गलमूर्तिमोरया